नक्षत्रमार्गम् विपुलं सुरवीथीति विश्रुतम् इन्द्राज्ञयाययौ पार्थस्तूयमानः समन्ततः तत्र साध्यास्तथा विश्वे मरुतोऽथाश्विनौ तथा आदित्या वसवो रुद्रास्तथा ब्रह्मर्षयो राजर्षयश्च बहवो दिलीपप्रमुखा तुम्बुरुर्नारदश्चैव गन्धर्वौ च हाहुः तान् सर्वान् समागम्य विधिवत्कुरु नन्दनः ततोऽपश्यद्देवराजम् शतक्रतुमरिन्दमः ततः पार्थो महाबाहुरवतीर्यरथोत्तमात् ददर्श साक्षाद्देवेशम् पितरम् पाकशासनम् पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा दिव्यगन्धाधिवासेन व्यजनेन विधूयता विश्वावसुप्रभृतिभिर्गन्धर्वैस्तुतिवन्दनैः स्तूयमानं द्विजाग्रैश्च रग्रजोः सामसम्भवैः ततो कौन्ते यः शिरसाभ्यङ्गमद्बली स चैनम् वृत्तपीनाभ्याम् बाहुभ्याम् प्रत्यगृह्णता ततः शक्रासने पुण्ये देवर्षिगणसेविते शक्रः पाणौ गृहीत्वैनमुपावेशय दन्तिके मूर्ध्नि चैनमुपाघ्राय देवेन्द्रः परवीरः अङ्कमारोपयामास प्रश्रयावनतम् तदा सहस्राक्षनियोगात् स पार्थः शक्रासनम् गतः अध्यक्रामदमेयात्मद्वितीय इव वासवः ततः प्रेम्णावृत्रशत्रुरर्जुनस्य शुभम् पस्पर्श पुण्यगन्धेन